श्रीमद्भागवत् महापुराणं द्वादशस्कन्धद्वितीयोऽध्यायः यदावतीर्णो भगवान् कल्कीर्धर्मपतिर्षरिः कृतं भविष्यति तदा प्रजासूतेश सात्विकी यदा चन्द्रश्च सूर्यश्च तथा तस्य बृहस्पति एकराशौ समेष्यन्ति तदा भवति तत्कृतम् एति ता वर्तमाना ये भविष्यन्ति च पार्थिवाः ते त उद्देशत प्रोक्ता वंशीया सोमसूर्ययोः आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम् एतद्वर्षसहस्रं तु शतं पञ्चदशोत्तरम् सप्तर्षीणां तु यौ पूर्वौ तस्योस्तु मध्ये नक्षत्रम् दृश्यते यः समम् ऋषि तेनैत ऋषयो युक्ता तिष्ठन्त्यब्दशतं नृणाम् ये त्वदीये द्विजाकाले अधुना चाशितामघा विष्णोर्भगवतो भानु कृष्णाख्योषौ दिवम् गतः तदापि सङ्कलिर्लोकम् पापे यद्रमते यावत् स पादपद्माभ्यां सुसन्नास्ते रमापतिः तावत्कलिर्वै पृथिवीं पराक्रान्तुं शाशकत् यदा देवर्षयसप्त मघासु विचरन्तिः तदा प्रवृत्तस्तु कलिर्द्वादशाब्ददांसतात्मकः यथा मघाभ्यो यास्यन्ति पूर्वाषां महर्षयः तदानन्दाद्रुभिद्ये स कलिर्वृद्धिं गमिष्यति यस्मिन् कृष्णो दिवं जात तस्मिन्नेव तदा हनि प्रतिपन्नम् कलियुगम् इति प्राहु पुरा विदः दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् भविष्यति यदा आत्मप्रकाशकम् यद्येष मानवो वंशो यथा सङ्ख्यायते भुवि तथा वितशुद्रविप्राणां तास्ता गेया युगे युगे एतेषां नाम लिङ्गानां पुरुषाणां महात्मनां कथामात्रावशिष्टानां कीर्तिरेव सिता भुवि देवापि सन्तनोर्भ्राता मरुस्त्यैक्ष्वा कुवंशजः कलापग्रामासा ते महायोगबलान्वितौ ताभिहैत्य कलेरन्ते वासुदेवानुशिक्षितौ वर्णाश्रमयुतं धर्मम् पूर्ववत् प्रथयिष्यतः कृतं च कलिश्चेति चतुर्युगम् अनेन क्रमयोगेन भुवि प्राणिसु वर्तते राजन्येते मया प्रोक्ता नरदेवा सथा परे भौमौ ममत्वम् कृत्वा ते हि त्वे कृमे विद्भस्मसंज्ञां राजनाम ते राजनाम्नोऽपि यस्य च भूतधृक्तकृते स्वार्थं किं वेदनिर्योयतः कथं श्रेयमुखण्डा भूपूर्वैर्मे पुरुसेषिता मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा तेजोवर्णमयं कायं गृहीत्वाऽऽत्मतया बुधाः महिममतया चोभो हि त्वां ते दर्शनं गताः ज्ये ये भूपतयो राजन् भुञ्जन्ति भूमौजसा कालीनते कालीनते कृता सर्वे कथामात्रा कथासु च ते श्रीमद्भागुते महापुराणे पारभंसां शयितायां द्वादशस्कन्धे द्वितीयोऽध्यायः